कषाप्रहाराभिहतस्ततः स मुनिसत्तमः तं शशापनृपः श्रेष्ठम् वासिष्ठ क्रोधमूर्च्छितः हंसि राक्षसवद् यस्माद् राजापसदतापसम् तस्मात् त्वमद्य प्रभृति भविष्यसि मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ततो याज्ञनिमित्ते तु विश्वामित्रवसिष्ठयोः वैरमासीत् तदा तम् तु विश्वामित्रोऽन्वपद्यत तयोर्विवादतोरेवम् समीपमुपचक्रमे ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ततः सबुबुधे पश्चात् तम् ऋषिम् नृपसत्तमः ऋषेः पुत्रम् वसिष्ठस्य वसिष्ठमिव तेजसा अन्तर्धाय तदात्मानम् विश्वामित्रोपि भारत तावुभावति चक्रामचिकीर्षन्नात्मनः प्रियम् स तु शप्तस्तदा तेन शक्ति न वै नृपोत्तमः जगाम शरणम् शक्तिम् प्रसादयितुमर्हयन्